देवा राजर्षयो ह्यत्र पुण्य ब्रह्मर्षयस्तथा कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते अनेकजनो यत्र कार्तिके यस्य सम्भवः ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते सर्वश्रुतिसमूहोऽयम् श्रोतव्यो धर्मबुद्धिभिः य इदम् श्रावयेद्विद्वान् ब्राह्मणा निहपर्वसु धूतपाप्माजितस्वर्गो ब्रह्म गच्छति शाश्वतम् निस्तु राजा प्रसूते गर्भिणी पुत्रम् कन्या चासु वणिजः सिद्धयात्रास्युर्वीरा विजयमाप्नुयुः आस्तिकान् श्रावयेन्नित्यम् ब्राह्मणाननसूयकान् वेदविद्याव्रतस्नातान् क्षत्रियाञ्जयमास्थितान् स्वधर्मनित्यान्वैस्यांश्च श्रावयेत्क्षत्रसंश्रितान् एष धर्मः पुरा सर्वधर्मेषु भारत ब्राह्मणाम् श्रवणम् राजन् विशेषेण विधीयते भूयो वायः पठेर्नित्यम् स गच्छेत्परमाम् गतिम् श्लोकम् वाप्यनुगृह्णीत तथार्धश्लोकमेव वा अपि पादम् पठेर्नित्यम् न च भवेत् इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम् इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनं। इह युद्धानि चित्राणि राज्ञां वृद्धिरिहैव च ऋषीणाञ्च कथास्तात इह गन्धर्वरक्षसाम् इह तत्तत् समासाद्य विहितो वाक्य विक्यस्तर तीर्थ नाम सागर देश पुण्यास्तवाग्र्यो वीरम्यतिमाष्ट्रोक इह भारते कल्पना सत्कारगस्ते पशि येन्द्राण कलनायुकौल वाक्यतिरनेमसर्तमण्राद्धे येमं पादम तत अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत् पितॄनिह अह्ना यदेनः क्रियते इन्द्रियैर्मनसापि वा ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते भारतानां महज्जन्म महाभारतमुच्यते निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते भारतानां यतश्चायमितः सो महाद्भुतः महतो ह्यो न सोमर्त्यान्मोचयेदनुकीर्तितः त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः नित्योत्थितः शुचिः महाभारतमादितः तपो नियममास्थाय कृतमेतन्महर्षिणा तस्मान्नियमसंयुक्तैः श्रोतव्यम् ब्राह्मणैरिदम् कृष्णप्रोक्तामिमाम् पुण्याम् भारतीमुत्तमाम् कथाम् श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः सर्वधा वर्तमाना वैन ते सोच्याः कृताकृतैः नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् न प्राप्य तुष्टिम् प्राप्नोति मानवः याम् श्रुत्वैव महापुण्यमितिहासमुपाश्नुते